मार्कण्डेयपुराणम् अध्यायं फोर्टि फोर् सुबाहुरुवाच यदर्थं नृपशार्दूलत्वामकं शरणं गतः तन्मया सकलं प्राप्तं यास्यामि सुखी भव काशिराज उवाच किं निमित्तं भवान् प्राप्तो निष्पन्नोऽर्थश्चकस्तव सुबाहो तन्ममाचक्ष्व परं कौतूहलं हि मे समाक्रान्तमलर्केण पितृपैदामहं महद राज्यं देहीति निर्जित्य त्वया तदो मया समाक्रम्य राज्यमस्यानुजस्यते ये येदत्ते बलमानीदं तत् भुङ्क्ष्वस्वकुलोचितं सुबाहुरुवाच काशिराजनिबोधत्वं यदर्थमयमुद्यमः कृतो मया, मया भवांश्चैव कारितोऽत्यन्तमुद्यमम् ब्रादा ममायं ग्राम्येषु सक्तो भोगेषु तत्त्वविदविमूढौ बोधवन्तौ च भ्रातरावग्रजौ मम तयोर्मम च यन्मात्रा बाल्ये स्थन्यं यथा मुखे तथावबोधो विन्यस्थः कर्णयोरवनीपदे तयोर्मम च विज्ञेयाः पदार्था ये प्राकाश्यं मनसो नीतास्ते मात्रा नास्य पार्थिव यथैकमर्थे यातानां मेकस्मिन्नवसीदधि दुःखं भवति साधूनां तदास्माकं महीपदे गार्हस्त्य मोहमापन्ने सीदत्यस्मिन्नरेश्वर संबन्धिन्यस्य देहस्य बिभ्रदिभ्रादृकल्पना ततो मया विनिश्चित्यदुःखाद्वैराग्यभावना भविष्यतीत्यस्य तदस्य दुःखाद्वैराग्यं सम्बोधाधवनीपते समुद्भूतं कृतं कार्यं भद्रं तेस्तु स्तु व्रजाम्यहम् उष्ट्वा मदालसागर्भे पीत्वा सत्सास्तथा स्थनं नान्य वर्त्मयात्विदि पार्थिव विचार्य तन्मया सर्वं युष्मत्संश्रयपूर्वकं कृतं तच्चापि निष्पन्नं प्रयास्ये सिद्धये पुनः उपेक्ष्यते सीदमानस्वजनो बान्धव सुहृदयैर्नरेन्द्र न तान्मन्ये सेन्द्रियाविकलाहिते सुहृदि स्वजने बन्धौ समर्थे योऽवसीदति धर्मार्थकाममोक्षेभ्यो वाच्यास्ते तत्र न त्वसौ ये दत्वत्सङ्गमाद्भूपमया कार्यमहत्कृतम् स्वस्थितेस्तु गमिष्यामि ज्ञानभाग्भवसत्तमा काशीराज उवाच उपकारस्त्वया साधोरर्कस्य कृतो महान् ममोपकाराय कथं न स्वमानसं फलदायी सदां सद्भिः न भलो यतः तस्मात्तवत् संश्रयाद्युक्ता मया प्राप्ता समुन्नतिः सुबाहुरुवाच धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयं तत्र धर्मार्थकामास्ते सकला हीयते परः तत्ते संक्षेपदो वक्ष्ये तदिहैकमनाशृणो श्रुत्वा च सम्यगालोच्य यते धाश्रयसे नृप ममेदि प्रत्ययो भूप न कार्योऽहमिदि त्वया सम्यगालोच्य धर्मो हि धर्माभावे निराश्रयः कस्याहमिति संज्ञेय मिथ्यालोच्य त्वयात्मना बाह्यन्तर्गतमालोच्य मालोच्या, मालोच्या पररात्रिषु अव्यक्तादिविशेषन्तमविकारमचेतनं मा व्यक्ताव्यक्तं त्वया ज्ञेयं ज्ञाता कश्चाहमित्युत ये यदस्मिन्नेव विज्ञाने विज्ञातमखिलं त्वया अनात्मज्ञात्मविज्ञानमखेकमिति मूढता सोऽहं सर्वगदो भूप लोकसंव्यवहारतः मयेदमुच्यते सर्वं त्वया पृष्टो व्रजाम्यहम् एवमुक्त्वा ययौ धीमान् सुबाहुः काशीभूमिपं काशीराजोऽपि सम्पूज्य सोलर्कं स्वपुरं ययौ अलर्कोऽपि सुतञ्ज्येष्टमभिषिच्य नराधिपं वनं जगाम सन्त्यक् सर्वसङ्गस्वसिद्धये ततःकालेन महादा निर्द्वन्द्वो निष्परिग्रहः प्राप्य योगर्धिमधुलां परं निर्वाणमाप्तवान् पश्यन् जगदिदं सर्वं सदेवासुरमानुषं पाश्यैर्गुणमयैर्बद्धं बध्यमानं च नित्यशः पुत्रादि पुत्रादि पुत्रादिभ्रातृपुत्रादिस्वपारख्याधिभावितैः आकृष्यमाणं करणाैर्दुःखार्तं भिन्नदर्शनम् अज्ञानपङ्गगर्भस्थमनुद्धारं महामतिः आत्मानञ्जसमुत्तीर्णं गाधा मेधामगायद अहो कष्टं यदस्माभैः पूर्वं राज्यमनुष्ठितम् इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखं जड उवाच तातैनं त्वं समातिष्ठमुक्तये योगमुत्तमं प्राप्स्यसे येन तद्ब्रह्म यत्र गत्वा न तदोऽहमपि यास्यामि किं यज्ञैः किं जपेन मे कृतकृत्यस्य करणं ब्रह्मभावाय कल्पते त्वत्तोऽनुज्ञामवाप्याहं निर्द्वन्द्वो निष्परिग्रहः प्रयतिष्ये यथा यास्यामि निर्वृदिं पक्षिण ऊचुः एवमुक्त्वा स पितरं प्राप्यानुज्ञां ततश्च सः ब्रह्मन् जगाममेधावी परित्यत्र परिग्रहः सोऽपि तस्य पिता तद्वत्क्रमेण सुमहामतिः वानप्रस्थं समास्थाय चतुर्धाश्रममभ्यगाद तत्रात्मजं समासाद्य हित्वा बन्धं गुणादिकं प्रापसिद्धिं परां प्राज्ञस्तत्कालोपातसम्मतिः ये दत्ते कथितं ब्रह्मन् यत्पृष्ठा भवदा सुविस्तरं यथावच्च किोदिच्छसी ये श्रीमाकंडेयुराणे पिता पुत्र जडो नाम संवाद जडोपाख्या चुश्च्वरशोध्याय